मुद्गलोपनिषत् श्रीमत्पुरुषसूक्तार्थं पूर्णानन्दकलेवरं पुरुषोत्तमविख्यातं पूर्णं ब्रह्म भवाम्यहम् ॐ वाग्मे मनसि प्रतिष्ठिता मनोमे माविरा वीर्म वेदस्य म आणीस्थः श्रुतं मे मा, मा प्रहासीरनेनाधीदे नाहो रात्रान् सन्तधाम्यर्थम् वदिष्यामि सत्यं वदिष्यामि तन्मामवदु तद्वाक्तारमवदु अवदो मामवधु वक्दारमवधु वक्दारम् ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः पुरुषसंहितायां पुरुषसूक्तार्थसङ्ग्रहेण प्रोच्यते सहस्रशीर्षेत्यत्र सशब्दो शब्दो नन्दवाचकः अनन्दयोजनम् प्राह दशाङ्गुलवचस्तथा तस्य प्रथमया विष्णो देशदो व्याप्तिरीरिता द्वितीयया चास्य विष्णो कालदो व्याप्तिरुच्यते विष्णोर्मोक्षप्रदत्वं च कथितृतीयया एतावानिधिमन्त्रेण वैभवं कथितं हरिः एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः त्रिपादित्यनया वैभवं तस्माद्विरादित्यनया तस्माद्विराडित्यनया पादनारायणाद्धरिः प्रकृते पुरुषस्यापि समुत्पत्तिः प्रदर्शिता यत्पुरुषेण त्यनया सृष्टियज्ञः समीरितः सप्तास्याः सन् परिधयः समिधश्च समीरिताः तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः मोक्षस्य चेरितः य एवमेतज्जानादिस हिमुक्तो भवेदिति अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवम् विस्तरेण प्रतिपादितम् वासुदेव इन्द्राय भगवज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणदायेन्द्राय परमरहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशद द्वौ खण्डा उच्येते योऽयमुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणा मदि दुर्ज्ञेयं विषयं विहाय क्लेशादिभिः सङ्क्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं वेषमाददे तेन वेषेण भूम्यादिलोकं व्याप्यानन्दयोजनमत्यतिष्ठद पुरुषो नारायणो भूतं भव्यं भविष्यच्चासीद स च सर्वस्मान्महिम्नो ज्यायान तस्मान्न कोऽपि ज्यायान महापुरुष आत्मानं चतुर्था कृत्वा त्रिपादेन परमे व्योम्नि चासीद इतरेण चतुर्धेनानिरुद्धनारायणेन विश्वान्याः सन् स च पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत ससमृद्धकायः सन्सृष्टिकर्म न ज्ञीवान् सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत ब्रह्मं स्तवेन्द्रियाणि या च कानि ध्यात्वा कोशभूतं दृढं ग्रन्थिफलेवरं हविर्ध्यात्वा मां हविर्भुजं ध्यात्वा वसन्तकालमाज्यं ध्यात्वा ग्रीष्ममिध्मं ध्यात्वा शरदृदुं रसं ध्याद्वैवमग्नौ हुत् ङ्गस्पर्शात् कलेवरो वज्रंशिष्यते तत स्वकार्यान् सर्वप्राणिजीवान् सृष्ट्वा पश्वाद्याप्रादुर्भविष्यन्ति ततस्तावरजङ्गमात्मकम् जगद्भविष्यति एतेन जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसन्धेयं य इमं सृष्टियज्ञं जानादिमोक्षप्रकारं च सर्वमायुरेति एको देवो बहुधा निविष्ट अजायमानो बहुधा विजायते समेदमग्निरित्यध्वर्यव उपासदे यजुरित्येष हीदं सर्वं युनक्रि सामेधि छन्दोगाः यदस्मिन् हीदं सर्वं प्रधिष्ठितं विषमिति सर्पाः सर्पा सर्प इति सर्पविदः ऊर्गिदि देवाः रयिरिति मनुष्याः मायेत्यसुराः स्वधेदि पितरः देवजन इति देवजनविदः रूपमिति गन्धर्वाः गन्धर्व इति अप्सरसः तं यथा यथोपासदे तथैव भवति तस्मात् ब्राह्मणपुरुषरूपं परं ब्रह्मैवाहमिति भावयेद तद्रूपो भवति य एवं वेद तद्ब्रह्म तापत्रयातीतं षट्कोशविनिर्मुक्तं षडूर्मिवर्जितं पञ्चकोशातीतं षड् भाव विकारशून्यमेवमादि सर्वविलक्षणं भवति तापत्रयं काधी काधी दैविकं त्वाध्यात्मिकाधिभौतिकाधिदैविकं कर्तृकर्मकार्यज्ञातृज्ञानज्ञेयभोक्तृभोगभोग्यमिति त्रिविधम् त्वं मांसशोणितास्ति स्नायुमज्जाषड्कोशाः कामक्रोधलोभमोहमदमात्सर्यमित्यरिषड्वर्गः अन्नमयप्रणमयमनोमय विज्ञानमयानन्दमया इति पञ्चकोशाः प्रियात्मजनवर्धन परिणामक्षय नाशड्भावाः अशनायापिपासाशोकमोहजरामरणानिधि षडूर्मयः कुलगोत्रजादिवर्णाश्रमरूपाणि षड्भ्रमाः यद्योगेन परमपुरुषो जीवो भवति नान्यः येदुपनिषदं नित्यमधीदे सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति अरोगी श्रीमांश्च भवति पुत्रपौत्रादिभिः समृद्धो भवति विद्वांश्च भवति महापादकात् पूजो भवति सुरापानात् पूजो भवति अगम्यागमनात् पूजो भवति मातृगमनात् पूजो भवति दुहिदृ स्नुषाभिगमनात् पूजो भवति स्वर्णस्थेयात्पूदो भवति वेदि जन्महानात्पूदो भवति गुरोरशुश्रूषणात्पूतो भवति अयाज्ययाजनात् भूतो भवति अभक्ष्यभक्षणात्पूतो भवति उग्रप्रतिग्रहात्पूदो भवति परदारगमनात्पूतो भवति कामक्रोधलोभमोहेर्ष्यादिभिरबाधितो भवति सर्वेभ्यः पापेभ्यो मुक्तो भवति इह जन्मनि पुरुषो भवति तस्मादेतत्पुरुषसूक्तार्थमधिरहस्यं राजगुह्यं देवगुह्यम् गुह्यादपि गुख्यतरं नादीक्षितायोपदिशेत् नानुचानाय न ना यत्नशीलाय न नायोगिने ना न ना बहुभाषिणे नासंवत्सरवेदिने ना न ना नानधीदवेदायोपदिषेद गुरुरप्येवं विचुचौ देशे पुण्यनक्षत्रे प्राणानायम्यपुरुषं ध्यायन्युपसन्नाय शिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् न बहुशो वदेद या दयामो भवति असकृत्कर्णमुपदिशेद एतत् कुर्वाणोऽध्येदाध्यापकश्च इह जन्मनिपुरुषो भवदीत्युपनिषद ॐ वाङ्मे मनसि मनोमे मनो मे वाचिप्रतिष्ठितमाविराविर्म ये धी वेदस्य माणीस्तश्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् सन्दधाम्यहृदं वदिष्यामि सत्यं वदिष्यामि तन्मामवदु तद्वक्तारमवदु अवधु मामवदु वक्तारमवदो वक्तारम् शान्तिशान्तिश्शान्तिः इति समाप्ता ॐ